श्रीहरये नमः अथ एकादशोऽध्यायः उवाच निसंयगततामेवं ऋषीणां दनुषे द्रुवः सन्ततेस्त्रमुपस्पृश्य यन्नारायणनिर्मितं सन्धीयमानये तस्मिन् मायागुह्यकनिर्मिताः क्षिप्रं विनेशोर्विथुर क्लेशाज्ञानोधये यथा तस्य आशास्त्रं धनुषि प्रयुज्यतः सुवर्णपुङ्काकलहं सवाससः विनिश्रुता आविविशुर्द्विषद्बलं यथा वनं तैस्तिग्मधारैः प्रधेन शिलीमुखै इतस्ततः पुण्यजनाबुभद्रताः तमभ्यधावन् कुपिता बुधायुथा सुपर्णम् उन्नत्तपणायि वाहयः सतान् बृषत्कै नित्कृत्य बाहोरुषिरोधरोधरान् निनायलोकं परमर्घमण्डलं व्रजन्ति निर्विद्ययमूर्ध्वप्रेतसः तान् हन्यमानानभिवीक्ष्य गुह्यकान् अनाघसश्चित्ररथेन भूरिसः औत्तानभातिं कृपया पितामहो मनुज्जागतो भगतः मनुरुवाच अलं वत्सादिरोषेण तमोद्वारणे पाप्मना येन पुण्यजनान्येतान् अवस्ति स्वमनागसः नास्मत्कुलोचितं तात कर्मैतत्सद्विकर्हितं वधो यदुपदेवानाम् आरब्धस्ते कृतैन नन्वेगस्यापरोधेन प्रसङ्गाद् बहवो हताः प्रातुर्वधाभिधप्तेन त्वयाङ्गप्रधातृवत्सलां नायं मार्गो हि साधूनां ऋषिकेशानुवर्तिनां यथात्मानं परागृह्या पशुवद्भूतवैससं सर्वभूतात्मभावेन भूतावासं हरिं भवान् आराध्यापधुराराध्यं विष्णोस्तत्परमं पदं सत्त्वं हरेरनुध्याथ तत्पुंसामभिसम्मतः कथं त्वपद्यं कृतवान् अनुशिक्षन् तितिक्षया करुणया मैत्याचाकिल चाकिल जन्तुषो समवत्वेन च सर्वात्मा भगवान् सम्प्रसीदति सम्प्रसन्ने भगवति पुरुषप्राकृतैर्गुणैर्हि विमुक्तो जीवनिर्मुक्तो ब्रह्मनिर्वाणमुच्चति भूतैः पञ्चभिरारब्धैर्योक्षित्पुरुष एव हि तयोर्व्यवायात्सम्भूते योक्षित्पुरुषयोरिह एवं प्रवर्तते सर्ग स्थितिः संयम मायया परमात्मनः निमित्तमात्रं तत्रासीत् निर्गुणः पुरुषशभः व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोभवत्तकल्वितं भगवान् कालशक्त्या गुणप्रवाहेन विभक्तवीर्यः करोत्यकर्तैव निहन्त्य हन्ता चेष्टा बालो नादिराकृत्य अव्ययः जनं जनेन जनयन् मारयन् मृत्युनान्तकम् न वै स्वबोषस्य विभक्षये वा परस्य मृत्योर्विशतसमं प्रजाः तं धावमानम् अनुधावन्त्यनीशा यथा राजां शनिलम्भूतसङ्गाः आयुषोपचयं झन्तो तथैवोपचयं विभुः उभाभ्यां रहितस्वस्थो दुस्तस्त्यभिदधात्यसौ केचित् कर्म वदन्त्येनं स्वभावमपरे नृप एके कालं परे दैवं पुंसत्काममुता परे अव्यक्तः सा प्रमेयस्य नानाशक्युदयश्चय न ना वै चिकीर्षितं दाद को भेधा तस्वसम्भवं नै च ते पुत्रकभ्रातो स एवावतिहन्ति च अथापि ह्यनहङ्कारात् नाजते गुणकर्मभिहेर्येष भूतानि भूतात्मा भूते सो भूतभावनः स्वशक्त्या मायया युक्ता चपाति च तमेव मृत्युम् अमृतं दाधदैवं सर्वात्मनोपेहि जगत्परायणं यस्मै बलिं विश्वसृजो हरन्ति गावो यता वैनसि धामयन्तृताः जननींत्वं पञ्चवर्षो जननी त्वं विहाय मातुः सपत्न्या वचसा वनं गतस्तपसा प्रत्यगक्षम् आराध्यलेपे मूर्ध्निपथं त्रिलोक्य ख्याहा तभेन मङ्गात्मनि मुक्तविग्रहे व्यपाश्रितं निर्गुणमेकमक्षरम् आत्मानमन्विच्च विमुक्तमात्मद्र यस्मिन्निधम् वेतमसत्प्रतीयते त्वं प्रद्यगात्मनि तथा भगवत्यनन्द आनन्दमात्र उपपन्न समस्तशक्तो भक्तिं विधाय परमांसनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाह्यमिति प्ररूढं संयच्च भद्रं ते प्रतीपं श्रेयसां परं श्रुतेन भूयसा राजन् अगधेन यतामयं येनोपसृष्टात् पुरुषात् लोकवद्विजयते भृशम् न भुधस्तद्वशं कश्चेत् इच्छन्नभयात्मात्मनः हेलनं गिरिश्राधुर्दणदस्य त्वया कृतं यज्जग्निवान् पुण्यजनान् भ्रातृग्नानित्यमर्षितः तं प्रसाधय वत्सासु सन्नत्या प्रस्रयोक्तिभिर्न नोभिभविष्यति एवं स्वायम्भुवः पौत्रम् अनुसास्यमनुर्ध्रवं तेनाभिवन्दितः साकं ऋषिभिः स्वपुरं ययौ इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते एकादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द